ब्रह्माण्डपुराणं मध्यभागम् अध्यायं सिक्स्टि वैवस्वतमनु सूत उवाच तदो मन्वन्तरेति ते चाक्षुषे दैवतैः सह वैवस्वतायमहदे पृथिवीराज्यमादिशद तस्माद्वैवस्वतात्पुत्रा जज्ञिरे दश तत्समाः इक्ष्वाकुश्च नृगश्च इव दृष्टशर्यादिरेव च नरिष्यन्तस्तथाप्रांश्युर्नाभागो दिष्ट करूषश्च पृषध्रश्च नवैते वैते मानवास्मृताः ब्रह्मणादुमनुः पूर्वं चोदितस्तु प्रबोधितं यष्टुं प्रजक्रमे कामं हयमेधेन भूपतिः अधा करोत्पुत्रकामः परामिष्टिं अनलाहुदिमेव यत् तत्र दिव्याम्बरधरा दिव्याभरणभूषिता दिव्या संहनना चैव इला जज्ञ इति श्रुतं तामिलेत्यधोवाच मनोर्दण्डधरस्ततः अनुगच्छस्वभद्रं ते तमिला तमिलाप्रत्युवाचः धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापदिं प्रजापतिं मित्रावरुणयोरंशे जातास्मि वददाम्बर तयो सकाशं यास्यामि मादो धर्मो हदो वधीत् एवमुक्त्वा पुनर्देवी तयोरन्तिकमागमद कृत्वान्तिकम्बरारोहाप्राञ्चलिर्वाक्यमब्रवीद अंशेस्मिन् युवयोर्जाता देवौ किं करवाणि वा मनु नैवाहमुक्तास्मि अनु गच्छस्व मामिति तथा दुब्रुवदीं साध्वीमिडामाश्रित्य तावुभौ देवौ च मित्रावरुणाविधं वचनमोचतुः अनेन तव धर्मज्ञे प्रश्रयो नदमेन चा। सत्येन चैव शुश्रूणि प्रीतौ स्वौ वरवर्णिनि आवयोस्त्वं महाभागे ख्यातिं कन्ये सुद्युम्न इति विख्यातस्त्रिषु पूजितः जगत्प्रियो धर्मशीलो मनोर्वंशविवर्धनः मानवः सदु सुव्युम्न स्त्रीभावमगमत्प्रभुः सादु देवी वर लब्ध्वा निवृत्ता पितं प्रति बुध नोत्तर मैथुना सोमपुत्र बुधा चासी मैलोज्ञ पुरवाहा बुधात् जनयिवाद सुद्युम्न त्वं पुनर्गताः सुद्युम्नस्यदु दायादास्त्रयः परमधार्मिकाः उत्कलश्च गयश्चैव विनतश्च तथैव च उत्कलस्योत्कलं राष्ट्रं विनतस्यापि पश्चिमम् दिक्पूर्वा तस्य राजर्षेर्गस्य दुगया तस्मिन् प्रजा सृष्ट्वा दिवाकरं दशरथा तदधा क्षत्रमकरोत्पृथिवीमिमां इक्ष्वा गुरेव दायादो भागं दशममाप्तवान् कन्याभावा तु सुद्युम्नो नैव भागमवाप्तवान् वसिष्ठवचना चासीत् प्रतिष्ठाने महाद्युतिः धर्मराजस्य सुद्युम्नस्य महात्मनः यदच्छ्रुत्वा तु ऋषयः पप्रच्छुः सुतजं प्रति मानव सदु सुद्युम्न स्त्रीभावमगमत्कथं सुत उवाचा पुरा महेश्वरं द्रष्टुं कुमारास्सनगादयः इलावृदं समाजग्मुर् ददृश्युर्वृषभ्वजम् उमयारममाणं तं विलोक्य पिहिते स्थले प्रदि जग्मुस्ततः सर्वे व्रीडिताभूचिवाप्यथ प्रोवाचवचनं देवी प्रिय हे दोःप्रियं प्रिया इमं ममाश्रमं देव यः पुमां संप्रवेक्ष्यति नारी स तुल्याप्सरसां शुभा तत्र सर्वाणि भूतानि विशाच्चाः पशवश्च ये स्त्रीभूतास्सहरुद्रेण क्रोडन्त्यप्सरसो यथा उमावनं प्रविष्टस्तु सराजा मृगयाम् मृगयां गतः पिशाच्चैः सहभूतैस्तु रुद्रे स्त्रीभावमास्ति ते तस्मात् स राजा स्त्रीभावं लब्धवान् पुनः महादेवप्रसादाच्च मानवत्म श्री ब्रह्माडे महापुराणे मध्यम भगे वायुप्रोक् वनोसृष्टिर्नाम ष्टतम ओ